अथ प्रथमकाण्डे द्वितीयप्रश्नप्रारम्भः ओ आपुन्नन्तु उन्नन्तु जीवसे जीवसे दीर्घायुत्वाय दीर्घायुत्वाय वर्चसे दीर्घायुत्वायेति दीर्घायुत्वाय वर्चसवोषधे ओषधे त्रायस्व त्रायस्वैनम् येन ग्रस्वधिते स्वधिते, स्वधिते स्वधित इति स्वाधिदेवे मैनम् येन गुंहि पुंसीः पुंसीर्देवश्रोः देवश्रोरेतानि देवश्रोरिति देवश्रो देवाश्रोः एतानि प्रा प्रवपे उपे स्वस्ति स्वस्त्युत्तराणि उत्तराण्यशीया उत्तराणीत्यराणि शीयापः आपो अस्मान् अस्मान्मातरः मातरः शृन्धन्तो शुम्धन्तु घृतेन घृतेन नः नो घृतपुवः घृतपुवः पुनन्तु घृतपुव इति घृतपुवः पुनन्तु विश्वम् विश्वमस्मद् वहन्तु रिप्रम् रिप्रमुद् उदाभ्यः आभ्यः शुचिः आपूतः पूत एमि सोमस्य सोमस्य तनोः तनोरसि असि तनुवम् प्रनवम् मे मे पाहि पाहि महीनाम् असि वर्चोधाः वर्चोधा असि वर्चोधा इति वर्चः धाः असि वर्चः वर्चो मयि मयि धेहि धेहि वृत्रस्य वृत्रस्य चक्षुष्पा असि चक्षुष्पा इति चक्षुः पाः चक्षुर्मे मे पाहि पाहि चित्पदिः चित्पतिस्त्वा चित्पतिरिति चित्पतिः त्वापुनातु पुना तु वाग्पदिः वाग्पदिस्त्वा वाक्पतिरिति वाग्पदिः त्वापुनातु पुनातु देवः देवस्त्वा सविता सविता पुनात् पुना त्वच्छिद्रेण पवित्रेण पवित्रेण वसोः वसोः सूर्यस्य ूर्यस्य रश्मिभिः रश्मिभिस्तस्य रश्मिभिरिति रश्मीभिः तस्य ते पवित्रपते पवित्रपते पवित्रेण पवित्रपद इति पवित्र पवित्रेण यस्मै यस्मैकम् कम् पुने पुनेदत् शकेयमा आवह भो देवासः देवासयीमहे यीमहे सत्यधर्माणः सत्यधर्माणो अध्वरे सत्यधर्माण इति सत्या धर्माणः अध्वरे यत् यध्वः वो देवासः देवासा गुरे आगुरे आगुर इत्यागुरे यज्ञियासो हवामहे हवामह इन्द्राग्नी इन्द्राग्नीद्या वा पृथिवी इन्द्राग्नी इतीन्द्र अग्निः द्यावापृथिवी आपः द्यावापृथिवी द्यावा पृथिवी आपवोषधीः ओषधीस्त्वम् त्वम् दीक्षाणाम् दीक्षाणामधिपतिः अधिपतिरसि अधिपतिरित्यधिपतिः असीह इह मा सन्तम् सन्तम् पाहि पाहीति पाहि आकोत्यै प्रयुजे आकूत्या इत्याकूत्यै प्रयुजेऽग्नये प्रयुज इति प्रायुजे अग्नये स्वाहा स्वाहा मेधायै मनसे मनसेग्नये अग्नये स्वाहा स्वाहा दीक्षायै दीक्षायै तपसे तपसेऽज्ञये अग्नये स्वाहा साः सरस्वती सरस्वत्यै पूषे पूषेऽग्नये अग्नये साहा साहापः आपो देवीः देवीर्बृहतीः बृहतीर्विश्वशम्भुवः विश्वशम्भुवो द्यावापृथिवी विश्वशम्भुव इति विश्वांशम्भुवः द्यावापृथिवी उरु द्यावापृथिवी इति द्यावा पृथिवी उर्वन्तरिक्षम् अन्तरिक्षम् बृहस्पतिः बृहस्पतिर्नः नो हविषाः हविषा वृथातु वृथातु विश्वे विश्वे देवस्य नेतुः नेतुर्मर्तः मर्तो वृणीत वृणीतसख्यम् विश्वे विश्वे रायः राय इषुध्यसि वृणीरपुष्यसे पुष्यसे स्वाहा स्वाहक्सामयोः ऋक्सामयोः शिल्पे ऋक्सामयोरित्युक्सामयोः शिल्पे स्थः शिल्पे इति शिल्पेः स्थस्ते ते ते इति ते मामा आरभे रभेते ते मा ते पातमा आस्य अस्य यज्ञस्य यज्ञस्योदृचः रुदृच इमाम् ऋदृजैद्युतरुचः इमान्धियम् दीर्घुम् शिक्षमाणस्य शिक्षमाणस्य देव देवक्रतुम् क्रतुम् दक्षम् दक्षम् वरुण वरुणभम् सर्वम् शिशाधि ययाति अतिविश्वाः विश्वा दुरिता, दुरिता दुरितेति दुः इता हरेम सुतर्माणमधि सुतर्माणमिति सुतर्माणम् अधिनामम् नावगुम् रुहेम रुहेमोऽर्क् ऊर्घसि अस्याङ्गिलसि आङ्गिलस्योर्णम् रदाः पूर्णम् रदा ऊर्जम् पाहि मा, मामा, मामा, माहि पुंसीः हिगुंसीर्विष्णोः विष्णोः शर्म शर्मासि असि शर्म शर्म यजमानस्य यजमानस्य शर्म शर्म मे मे यच्छ नक्षत्राणाम् नक्षत्राणाम् मातिकाशात् अतीकाशात् पाहि पाहि इन्द्रस्य इन्द्रस्य योनिः योनिरसि सिमा मा हिगुंसेः विगुंसेः कृष्यै कृष्यै त्वा सुसस्यायै सुसस्यायै सुविप्लाभ्यः सुसस्याया इति सुस्यायै सुविप्लाभ्यः स्वा सुविपलाभ्य इति सो विप्पलाभ्यः कौषधेभ्यः ओषधेभ्यः सोपस्थाः ओषधेभ्य सोपस्था देवः सोपस्था इति सो उपस्थाः देवो वनस्पतिः वनस्पतिमूर्ध्वः ऊर्ध्वो मा पा पाहि पाह्या ओदृजः उदृज स्वाहा उदृच इत्युतऋचः स्वाहा यज्ञम् यज्ञम् मनसा मनसा स्वाहा स्वाहाद्या वापृथिवीभ्याः द्यावापृथिवीभ्याः स्वाहा ्या वा पृथिवीभ्यामिति द्या वा पृथिवीभ्याम् स्वाहोरोः रुरोरन्तरिक्षात् अन्तरिक्षात् स्वाहा स्वाहा यज्ञम् यज्ञम् वातात् वातादा आरभे रभ इति रभे दैवीम् धियम् धियम् मनामहे मनामहे स्मृडीकाम् स्मृडीकामभिष्टये स्मृडीकामिति अभिष्टये वर्चोधाम् वर्चोधाम् यज्ञवाहसम् वर्चोधामिति वर्चः धाम् यज्ञवाहसकम् सुपारा यज्ञवाहसमिति यज्ञवाहसम् सुपारा नः सुपारेति सुपारा नो असत् असद्वशे असद वशयि विवशे हे देवा मनोजाताः मनोजाता मनोजः मनोजाता इति मनः जाताः मनोयुजः सुदक्षाः मनोयुज इति मनः युजः सुदक्षा दक्षपितारः सुदक्षा दक्षा दक्षा इति सोदक्षाः दक्षपितारस्ते दक्षपितार तेनः नः पान्तु तेनः ते नो वन्तु तेभ्यो ते नमः नमस्तेभ्यः तेभ्यः स्वाहा अग्ने त्वम् त्वरगुंसो सुजागृहि जागृहि वयम् वयगुंसो सुमन्दिषीमहि मन्दिशीमहि गोपाय गोपायनः अस्वस्तये स्वस्तये प्रवृधे प्रवृधे नः प्रबुध इति प्रबुधे नः पुनः पुनर्दधः दधरिति ददः तमग्ने व्रतपासि व्रतपा इति व्रतपाः हसि देवः देवा, देवा आमर्त्येषु मर्त्येष्वा एत्या त्वञ् यज्ञेषु यज्ञेष्वीड्यः विश्वे देवाः देवा अभि देवा अभिमाम् मामा आवृत्रन् अववृत्रन् पूषा पूषा सञ्ज्ञा सञ्ज्ञा सोमः राधसा देवः देवः सविता सविता वसो वसोः वसोर्वसुदावा वसुदावारास् वसुदा, वसुदा, वसुदा वेति इयत्सोम सोमा आभूयः भूयो भर भरमा मा पृणन् प्रणन् पूर्त्या, पूर्त्या विराधि राधिमा माहम् अहमायुषा आयुषा चन्द्रम् चन्द्रमसि असि मम अमभोगाय भोगाय भव भव वस्त्रम् वस्त्रमसि असि मम अमभोगाय भोगाय भव भोस्रा उस्रासि असि मम अमभोगाय भोगाय भवहयः भा हयोऽसि असि मम अमभोगाय भोगाय भव भवशागः छागोऽसि असि मम अमभोगाय भोगाय भव भवमेषः मेषोऽसि असि मम भोगाय भव वायवेः वायवे त्वा त्वा वरुणाय वरुणाय त्वा त्वा निवृत्यै निरवृत्यै त्वा निरवृत्या आपो अपावान् अपान्नपात् अपाद्यः य वूर्मिः ऊर्मिरहविष्यः प्रविष्य इन्द्रियावान् इन्द्रियावान्मदिन्तमह इन्द्रियावानिति इन्द्रिया मदिन्तमस्तम् निये निये, तम्वः वो मा वा अवक्रमिशम् क्रमिषमच्छिन्नम् अच्छिन्नम् तन्तुम् तन्तुम् पृथिव्याः पृथिव्या अनुघेशम् गेशम् भद्राद् भद्रादभि अभिश्रेयः स्रेजा, श्रेयःप्रेहि इहि बृहस्पतिः बृहस्पतिः पुरयेता पुरयेता ते दे, पुरयेतेति ते दे अस्तु अस्त्वथ अथे इमव अवस्य स्यवरे वरा आपृथिव्याः पृथिव्या आरे आरे शत्रू ने शत्रोवम् तृणुहि तृणहि सर्ववीरः सर्ववीरः सर्ववीर इति सर्ववीरः एनम् इदमगन्म अगन्म देवयजनम् देवयजनम् पृथिव्याः देवयजनमिति देवयजनम् पृथिव्या विश्वे विश्वे देवाः देवायत् यदुषन्त अजुषन्तपूर्वे पूर्वरिक्सामाभ्याम् ऋक्सामाभ्याम् यदुषा ऋक्सामाभ्यामित्यृक्सामाभ्याम् यदुषा सन्तरन्तः सन्तरन्नो राजः सन्तरन्तरिति सन्तरन्तः राजस्पोषेण कोषेण सम् समिषा इशा मदेम मदेमेति मदेम इयम् ते ते शुक्र शुक्रतनोः तनोरिदम् इदम् अर्चस्तया तया सम् सम्भव भवभ्राजम् भ्राजम् गच्छजोः जोरसि असि धृता धृता मनसा मनसा जुष्टा जुष्टा विष्णवे विष्णवे तस्याः तस्यास्ते ते सत्यसवसः सत्यसवसः प्रसवे सत्यसवस इति सत्या सवसः प्रसवे वाचः प्रसवैः प्रसवे वाचो यन्त्रम् यन्त्रमशीय अशीय स्वाहा स्वाहा शुक्रम् शुक्रमसि अस्यमृतम् अमृतमसि असि वैश्वदेवम् हविः वैश्वदेवमिति वैश्व हविः सूर्यस्य सूर्यस्य चक्षुः चक्षुरा आरुहम् अरुहमग्नेः अग्नेरक्ष्णः अक्ष्णः कनीनिकाम् कनीनिकाम् यत् देतषेभिः एतषेभिरीयसे ईयसे भ्राजमानः भ्राजमानो विपश्चिता विपश्चिता चित् चिदसि असि मना असि धीः धीरसि असि दक्षिणा दक्षिणासि असि यज्ञियाः यज्ञियासि असि क्षत्रियाः क्षत्रियासि अस्य दितिः अस्य शी, भयतः शीर्ष्णी उभयतः शीर्ष्णी सा उभयतः शीर्ष्णेत्युभयतः शीर्ष्णी सा नः नः सुप्राची सुप्रतिची सु सु सुप्रतीची सुप्राची दिसोऽप्राची सुप्रतीची सुप्रतिची सुप्रतीची सु दिसोऽप्रतीची सु सम्भव भवमित्रः मित्रस्त्वापदि पदिबध्रातु बध्रातु पूषा पूषाध्वनः त्वाय इन्द्रायाध्यक्षाय अध्यक्षाया नो अध्यक्षायेत्यधि रक्षाय अनुत्वा माता माता मन्यताम् मन्यतामनो अनुपिता पिता नो अनुभ्राताः भ्राता सगर्भ्यः स गर्भ्यो नु सगर्भ्य इति सा गर्भ्यः अनुसखाः सखा सयोगोत्थ्यः स योगोत्थ्यः सा स योच्छ इति सा अच्छेहि इहे इन्द्राय इन्द्राय सोमम् रुद्रस्त्वा त्वा आवर्तयतु वर्तयतु मित्रस्य मित्रस्य पथा पथा स्वस्ति स्वस्ति सोमसखा सोमसखा पुनः सोमसखेति सोमसखाः पुनरा एहि इह सह सः रय्या रय्येति रय्या वस्यसि असि रुद्रा रुद्रासि अस्य दितिः अदितिरसि अस्यादित्या आदित्यासि असि शुक्रा शुक्रासि असि चन्द्रा चन्द्रासि असि बृहस्पतिः बृहस्पतिस्त्वा असुम्ने सुम्ने रणतो रुद्रः रुद्रो वसुभिरा वसुभिरिति वसोभिः आचिकेतु चिकेतु पृथिव्याः पृथिव्या मूर्धन्ना आचिघर्मि जिघर्मि देवयजने देवयजन इडायाः देवयजन इति देव इडायाः पदे पदे घृतवति घृतवति स्वाह, स्वाहा घृतवतीति घृतवती स्वाहा परिलिखितम् परिलिखितगुं रक्षः परिलिखितमिति परिलिखितम् रक्षः परिलिखिताः परिलिखिता रजयः परिलिखिता इति परिलिखिताः अराजय इदम् इदमहम् अहगुं रक्षसः रक्षसो ग्रीवाः ग्रीवा अपि अपि कृन्तामि अस्मान् द्वेष्टि द्वेष्ट्यम् किञ्च वयम् वयम् ग्रीष्मः ग्रीष्म इदम् इदमस्य अस्य ग्रीवाः ग्रीवापि अभि कृन्तामि क्रन्ताम्यस्मे अस्मे राजः अस्मे इत्यस्मे राजस्त्वे त्वे रायः त्वे इति त्वे राजस्तोते स्तोते रायः राजः सन् सन् देवि उर्वश्या पश्यस्व पश्यस्वत्वष्टीमती तुष्ट्रीमती ते ते सुरेया सुरेय सुरेताः रे सुरेथा रेतः सुरेथा इति सुरेताः रेथो दधाना दधाना वीरम् वीरम् विधेय दिदे विधेय तव तव सन्दृशि सन्दृशि मा सन्दृशीति सन्दृशि पोषेणवि ययोषम् योषमिति योषम् अगुंशुनादे ते अगुंशुः अगुंशुः पृच्यताम् पृच्यताम् परुषः परुषा पुरुः परुर्गन्धः गन्धस्ते ते कामम् काममवतु अवतु मदाय मदाय रसः रसो अच्युतः अच्युतोमात्यः अमात्योऽसि असि शुक्रस्ते ते ग्रहः अभित्यम् त्यन्दम् देवगुंसवितारम् स्विदारमूण्योः मूर्ण्योः कवि कवि कविक्रतुम् कविक्रतुमर्चामि कविक्रतुमिति कविक्रतुम् अर्चामि सत्यसवसम् सत्यसवसगम् रत्नधाम् सत्यसवसमिति सत्यास्रवसम् रत्नधामभि रत्नधामिति रत्नाधाम् अभिप्रियम् प्रियम् मतिम् मतिमूर्ध्वा मति ऊर्ध्वा यस्य अमतिर्भाः भा अदिद्युदत् अदिद्युदत्सवीमनि सवीमनि हिरण्यपाणिः हिरण्यपाणिरमिमीत हिरण्यपाणिरिति कृपा सुक्रतुरिति सुक्रतुः कृपा प्रजाभ्यस्त्वा प्रजाभ्यैरिप्राजाभ्यः त्वा प्राणायत्वा प्राणायति प्रा अनाय त्वाव्यानाय व्यानायत्वा व्यानायेति वि त्वमनो अनुप्रा प्राणिः अनिः प्रजाः प्रजास्त्वाम् प्रजायतिरि प्राजाः अनुप्रा प्राणन्तो अनन्त्वित्यनन्तो सोमन्ते ते क्रीणामि क्रीणाम्योर्जस्वन्तम् ओर्जस्वन्तम् पयस्वन्तम् पयस्वन्तम् वीर्यावन्दम् वीर्यावन्तमभिमादिशाहम् वीर्यावन्तमिति वीर्यावन्तम् अभिमादिशाहत्वम् शुक्रम् अभिमादिशाहमित्यभिमाति साहम् शुक्रन्देः ते शुक्रेण शुक्रेण क्रीणामि क्रीणामि चन्द्रम् चन्द्रेण चन्द्रेणामृतम् अमृतममृतेन अमृतेन संयत् संयत् ते ते गोः गोरस्मे अस्मे चन्द्राणि अस्मे इत्यस्मे चन्द्राणि तपसः तपसस्तनोः तनोरसि असि प्रजापतेः प्रजापतेर्वर्णः प्रजापतेरिति प्रजापतेः वर्णस्तस्याः तस्यास्ते ते सहस्रपोषम् सहस्रपोषम् पुष्यन् जाः सहस्रपोषमिति सहस्रपोषम् पुष्यन् जाश्चरवेण चरवेण पुशुनाः पुशुनाः क्रीणामि क्रीणाम्यस्मे अस्मे ते अस्मे इत्यस्मे ते बन्धुः बन्धुर्मयि मयि ते ते राजः अस्मे ज्योतिः अस्मे इत्यस्मे ज्योतिः सोमविक्रयिणि सोमविक्रयिणि नमः सोमविक्रयिणीति सोम तमो मित्रः मित्रो न आ एहि इहि सुमित्रधाः सुमित्रधा इन्द्रस्य सुमित्रधा इति सुमित्रा धाह इन्द्रस्योरुम् ऊरुमा आविष उषन्नुषन्तम् उषन्दर्गस्योनः श्योणः स्योनम् स्योनग्स्वान स्वानभ्राज भ्राजाङ्गारे अङ्गारे वम्भारे वम्भारे हस्त हस्तसुहस्त सुहस्तकृशानो सुहस्तेतिसोऽहस्तकृशानलेते सु कृशानलिकृश अनो एते वः वः सोमक्रयणाः सोमक्रयणास्तान् सोमक्रयणा इति सोम तान् रक्षध्वम् रक्षध्वम् मा वः वोदभन् दभन्न। उदायुषा आयुषा स्वायुषाः स्वायुषोत् स्वायुषेति सु आयुषाः उदोषधीनाम् ओषधीनागुम् रसेन रसेनोत् उत्पर्जन्यस्य शुष्मेण शुष्मेणोत् उदस्थाम् अस्थाममृतान् अमृताघुम् अनु अन्वित्यो उर्वन्तरिक्षम् अन्तरिक्षमनो अन्विः इष्यदित्याः अदित्या सदः सदोऽसि अस्यदित्याः अदित्याः सदः सधा आसील शीलास्तभ्रात् अस्तभ्राद्याम् या वृषभः अमिनीतपरिमाणम् परिमाणम् पृथिव्याः पृथिव्या आसीदत् असीदद्विश्वा विश्वा भुवदानि भुवनानि सम्राट् सम्राट् विश्वा सम्राट् इति तानि वरुणस्य वरुणस्य व्रतानि व्रतानि वनेषु वनेषु वि यन्तरिक्षम् जम् वाजमर्वत्सो अर्वत्सु पयः अर्वत्स्वित्यर्वत्स्व पयो अघ्न्यासो अघ्नयासु हृत्सो हृत्स् क्रतुम् हृत्स्विति हृत्सो क्रतुम् मरणः मरणो विक्षो विक्ष्वग्निम् अग्निम् अद्रावत् उदो हृत्यम् ञ्जातवेदसम् जातवेदसम् देवम् जातवेदसमिति जात वे जाता वेदसम् देवम् वहन्ति वहन्ति केतवः केतव इति केतवः दृशे विश्वाय विश्वाय सूर्यम् सूर्यमिति सूर्यम् पुस्रावा एतम् इदम् धूरुषाहुः धूरुषाः वनश्रू धूरुषाः विति धूः अनश्रु अवीरहणौ अनश्रु इत्यनश्रु अवीरहणौ ब्रह्मचोदनौ अवीरहणामित्यवीरहनौ ब्रह्मचोदनौ वरुणस्य ब्रह्मचोदनामिति ब्रह्मचोदनौ वरुणस्य स्कम्भनम् स्कम्भनमसि असि वरुणस्य वरुणस्य स्कम्भसर्जनम् स्कम्भसर्जनमसि स्कम्भसर्जनमिति स्कम्भसर्जनम् असि प्रत्यस्तः प्रत्यस्तो वरुणस्य प्रत्यस्त इति प्रती अस्तः वरुणस्य पाशः पाश इति पाशः प्रत्यवस्व चणस्व भुवः भुवस्पतेः पते, पते विश्वानि विश्वाण्यभि अभिधामानि धा धामानि मा त्वा परिपरिपरी परिपरी विदत् परिपरीति विदन्मा मात्वा त्वापरिपन्थिनः परिपन्थिनो विदन् परिपन्थिन इति परिपन्थिनः विदन्मा मा त्वा वृकाः वृका अघायवः अघायवोमा अघायवैत्यघायवः मा गन्धर्वः गन्धर्वो विश्वावसोः विश्वावसुरा विश्वावसुररिति विश्वावसुः आदघत् दघच्छेनः श्येणो भूत्वा भूत्वा परा परा पत पतयजमानस्य यजमानस्य नः नो गृहे गृहे देवैः देवैः सर्गस्कृतम् सर्गस्कृतम् यजमानस्य यजमानस्य स्वस्त्यनी स्वस्त्ययन्यसि स्वास्त्ययनीति स्वस्ति अयनी अस्यपि अपि पन्थाम् पन्थामगस्महि अगस्महि स्वस्तिगाम् स्वस्तिगामिति स्वस्ति गाम् अनेह संयेन विश्वाः विश्वाः परि परि द्विषः द्विषो वृणक्ति वृणक्ति विन्दते विन्दते वसो वसुनाः नमो मित्रस्य मित्रस्य वरुणस्य वरुणस्य चक्षसे चक्षसे महः महो देवाय देवाय तत् तदृतम् दृतगम् सपर्यत सपर्यत दूरे दृशे देवजाताय दूरे दृश इति दूरे दृशे देवजाताय केतवे देवजातायेति देवजाताय केतवे दिवः दिवः पुत्राय पुत्राय सूर्याय सूर्याय शगुंसत शगुंसत वरुणस्य वरुणस्य स्कम्भनम् स्कम्भनमसि असि वरुणस्य वरुणस्य स्कम्भसर्जनम् स्तम्भसर्जनमसि स्तम्भसर्जनमिति स्कम्भसर्जनम् अस्युन्मुक्तः उन्मुक्तो वरुणस्य उन्मुक्त इत्युत् मुक्तः वरुणस्य पाशः पाश इति पाशः अग्नेरातिथ्यम् आतिथ्यमसि असि विष्णवे विष्णवे त्वा सोमस्य सोमस्यातिथ्यम् आतिथ्यमसि असि विष्णवे विष्णवेत्त्वा त्वा त्वा त्वातिथेः अतिथेरादिथ्यम् आदिथ्यमसि असि विष्णवे विष्णवे त्वा त्वाग्नयेः अग्नये त्वा त्वा त्वाराजस्पोषदावन्नेः राजस्पोषदावृन्ने विष्णवे राजस्पोषदावण्ण इति राजस्पोषदावन्नेः सोमभृत इति सोमभृते विष्णवे त्वा या याते ते धामानि धामानि हविषा हविषा यजन्ति यजन्ति ता ताते ते विश्वा विश्वापरिभोः परिभोरस्तु परिभोरिति परिभोः अस्तु यज्ञम् यज्ञम् गजस्थानः गजस्थानः प्रतरणः गजस्फान इति गयास्थानः प्रतरणः सुवीरः प्रतरण इति प्राकरणः प्र अवीरहेत्यवीरा प्रचर चरासोम सोमदुर्यान दुर्यानदित्याः अदित्याः सदः सदोऽसि अस्य नित्याः आसीद शीलवरुणः वरुणोऽसि असि धृतव्रतः धृतव्रतो वारुणम् धृतव्रत इति धृताव्रतः वारुणमसि असि शञ्योः शेंगो शंयोर्देवानाम् शंयोरिति संयोः देवानागम् सख्यात् सख्यान् मा देवाना देवानामपसः अपसः शित्स्महि चित्स्मह्यापतये आपतये त्वा आपतय इत्यापतयेः त्वा गृह्णामि गृह्णामि परिपतये परिपतये त्वा परिपतय इति परिपतये त्वा गृह्णामि गृह्णामि तनो नेण तनो नेणे त्वा इति तनो नेण त्वा गृह्णामि गृह्णामि शाक्वराय शाक्वराय त्वा त्वा गृह्णामि गृह्णाम्यनाधृष्टम् अनाधृष्टमसि अनाधृष्टमित्यनाधृष्टम् अस्य नाधृश्यम् अनाधृष्यम् देवानाः अनाधृष्यमित्यनाधृश्यम् देवानामोजः ओजोऽभिषस्तिपाः अभिषस्तिपा अनभिषस्तेऽन्यम् अभिषस्तिपा इत्यभिषस्तिपाः अनभिषस्तेऽन्यमनो अनभिषस्तेऽन्यमित्यनभिषस्तेऽन्यम् अनुमे मे दीक्षाम् दीक्षाम् दीक्षापतिः दीक्षापतिर्मन्यताम् दीक्षापतिरिति दीक्षापतिः मन्यतामनु अनुतपः तपस्तपस्पतिः तपस्पतिरञ्जसा तपस्पतिरिति तपः पतिः रञ्जसा सत्यम् सत्यमुप उपकेशम् केशगम् श्रुते श्रुविते माधाः धा इति अगुंशुरगुंशुस्ते अगुंशुरगुंशुरित्यगुंशुः अगुंशुः ते देव देव सोमा सोमा आप्यायताम् प्यायतामिन्द्राय इन्द्रायैकधनविदेः एक एकधनविद आ एकधनविद इत्येकधनविदेः एक आतुभ्यम् तदुभ्यमिन्द्रः इन्द्रः प्यायताम् पायतामा आ त्वम् त्वमिन्द्राय इन्द्रायप्यायस्व ्यायस्वा आप्यायय प्यायय सखीन् सहीन्सञ्ज्ञा सञ्ज्ञा मेधया मेधया स्वस्ति स्वस्तिते हे देव देवसोम सोमसुत्याम् सुत्यामशीय अशीयेष्टः एष्टारायः प्रायः प्रा प्रेषे इषे भगाय भगायर्थम् ऋतमृतवादिभ्यः ऋतवादिभ्यो नमः व्रतवादिभ्यै त्रिलवादिभ्यः नमो दिवे दिवे नमः नमः पृथिव्यै पृथिव्या अग्नेः अग्नेः व्रतपते व्रतपते त्वम् व्रतपत इति व्रतापतेः त्वम् व्रतानाम् व्रतानाम् व्रतपतिः व्रतपतिरसि व्रतपतिरिति व्रतापतिः असि या मम मम तनोः तनोरेषा एषा सा त्वयि त्वयि या या तव तव मयि मयि सह सह नौः नौ व्रतपते व्रतपतेर््रतिनोः व्रतपत इति व्रतापते व्रतिनोर्व्रतानि व्रतानि ते अग्नेः अग्नेरुद्रिया अग्ने रुद्रिया, रुद्रिया तनोः तनोस्तयाः या नः नः पाहि पाहि तस्याः तस्यास्ते ते स्वाहा स्वाहाया याते ते अग्नेः अग्नेयाशया अयाशया रजाशया अयाशयेत्यजाशया प्रजाशया हराशया प्रजाशयेति रजाशया हराशया तनोः हराशयेति हराशया तनोर्वरसिष्ठा वरसिष्ठा गह्वरेष्ठा गह्वरेष्ठोग्रम् गह्वरेष्ठेति गह्वरेष्ठा उग्रम् वचः वचो अप अपावधिम् अवधीम् द्वेषम् वचः वचो अप अपावधिम् अवधि स्वाहे द्विस्वाहा वित्तायनी मे वित्तायनीति वित्तायनी मेऽसि असि तिक्तायनी तिक्तायनी मे तिक्तायनीति तिक्तायनी मेसि अस्यवतात् अवतान्मा मा नाथितम् नाथितमवतात् अवतान्मा मा व्यथितम् व्यथितम् विदेः विदेरग्निः अग्निर्नभः नभो नाम नामाग्नेः ना अग्नेरङ्गिरः योऽस्याम् अस्याम् पृथिव्याम् पृथिव्यामसि तस्यायुषा आयुषाणाम्ना नाम्ना एहि विहि यत् यत्ते एनाधृष्टम् अनाधृष्टम् नाम अनाधृष्टमित्यनाधृष्टम् नाम यज्ञयम् यज्ञयन्तेन तेन त्वा त्वा अग्ने अङ्गिरः अङ्गिरो यः यो द्वितीयस्याम् द्वितीयस्याम् तृतीयस्याम् तृतीयस्याम् पृथिव्याम् पृथिव्यामसि अस्यायुषा आयुषानाम्ना नाम्ना येहित् यत्ते तेनाधृष्टम् अनाधृष्टम् नाम अनाधृष्टमित्यनाधृष्टम् नाम यज्ञम् यज्ञियन्तेन तेन त्वा आदधे दधे सिगुंहीः सिगृंहीरसि असि अस्युरो उरुप्रथस्व प्रथस्वोरु उरुते ते यज्ञपतिः यज्ञपतिः प्रथताम् यज्ञपतिरिति यज्ञापतिः प्रथताम् ध्रुवा ध्रुवासि असि देवेभ्यः देवेभ्यः शुम्भस्व देवेभ्यः देवेभ्यः शुम्भस्व शुम्भस्वेन्द्रघोषः इन्द्रघोषस्त्वा इन्द्रघोष इन्द्रघोषः त्वावसुभिः वसुभिः पुरस्तात् वसुभिरिति वसुभिः पुरस्तात्पातु मनोजवास्त्वा मनोजवा इति मनः जवाः त्वापितृभिः पितृभिर्दक्षिणतः पितृभिरिति दक्षिणतः पातु पादु प्रचेताः प्रचेतास्त्वा प्रचेतादिप्राचेताः त्वा रुद्रैः रुद्रैः पश्चाद् पश्चात्पादो पादु विश्वकर्मा विश्वकर्मा त्वा विश्वकर्मेति विश्वाकर्माः पादित्यैः पादित्यैरुत्तरतः उत्तरतः पादो उत्तरत इत्युक्तरतः पादु सिगुहीः सिगुहेरसि असि सपद्मसाहि स्वाहा सपत्नसाहीति सपत्नसाहि स्वाहासिगुंहेः सिगुंहेरसि असि सुप्रजावनिः सुप्रजावनिःस्वाहा सुप्रजावनिरिति सुप्रजावनिः स्वाहासिगृंहेः सिगुंहेरसि असि रायस्पोशवनिः रायस्पोशवनिस्वाहा रायस्पोशवनिरिति रायस्पोषावनिः स्वाहासिगुहेः श्रिगुंहीरसि अस्यादित्यवनिः आदित्यवनि स्वाहा आदित्यवनिरित्यादित्यवनिः स्वाहा श्रिगुहंहीः अस्या आवः वः देवान् देवान् देवयते देवयते यजमानाय देवयत इति यजमानाय स्वाहा स्वाहा भूतेभ्यः भूतेभ्य स्वा त्वाविश्वायोः विश्वायुरसि विश्वायुरिति विश्वायुः असि पृथिवीम् पृथिवीम् दृगुम्ह दृगुम्हध्रुवक्षित् ध्रुवक्षिदसि ध्रुवक्षिदिति ध्रुवाक्षित् अस्यन्तरिक्षम् अन्तरिक्षम् दृगुम्ह दृगुम्हाच्युतक्षित् अच्युतक्षिदसि अच्युतक्षिदित्यच्युताक्षित् असि अग्नेर्भस्मा भस्मासि अस्य अग्नेः अग्नेः पुरीशम् पुरीषरसि असीत्यसि इञ्जते मनः मनः उत उत युञ्जते इञ्जते विप्रस्य विप्रस्य बृहतः विपश्चित इति विपश्चितः विहोत्रावाह होत्रा दधे वयुनाविदिति वयुनावित् एखयित् इन्मही मही देवस्य देवस्य सवितुः सवितः परिष्टुतिः परिष्टुतिरिति परिस्तुतिः सुवाग्देव सुभागिति सोवाग् देवदुर्यान् दुर्याघुम् आवद वद देवश्रुतौ देवश्रुतौ देवेषु देवश्रुताविति देवाश्रुतौ देवेष्वा आघोषेथा घोषेथा मा आतः नो वीरः वीरो जायताम् जायताम् कर्मण्यः कर्मण्योऽयम् जगुम् सर्वे सर्वेऽनुजीवाम अनुजीवामयः अनुजीवामेत्यनु जीवाम यो बहूनाम् बहूनामसत् असद्वशी वशीति वशी, वशी, वशी इदम् विष्णुः विष्णुर्वी विचक्रमे चक्रमे त्रेधा त्रेधानि निलधे दधे पदम् पदमिति पदम् समोढमस्य समोढमिति सम् ऊढम् अस्य पागुंसुरे पागुंसुर इलावती इरावती धेनुमती इरावती इतीरा धेनुमतीः धेनुमती इति धेनुमतीः हि भूतम् सूयवसिनी मनवे सूयवसिनी इति मनवे यशस्ये यशस्ये इति यशस्ये यः स्कब्धात् अस्कब्धाद् विष्णुः रोदसी इति रोदसी विष्णुरेते रो रो एतेदाधार एते, एते इत्येते आधारपृथिवीम् पृथिवीमभितः अभितो मयूखैः मयूखैरिति मयूखैः प्राची प्र प्राची इति प्राची प्रेतम् इदमध्वरम् अध्वरम् कल्पयन्ती कल्पयन्ती ऊर्ध्वम् कल्पयन्ती इति कल्पयन्ती ऊर्ध्वम् यज्ञम् यज्ञम् नयतम् नयतम् मा माजीश्वरतम् जेश्वरतमत्र अत्र रमेथा प्रमेथाम् वर्ष्मन् वर्ष्मण् पृथिव्याः पृथिव्या दिवः दिवो वा वा विष्णोः विष्णभुत उत वा वापृथिव्याः पृथिव्या महः महोवा वा विष्णोः विष्णभुत उत वान्तरिक्षात् अन्तरिक्षाद्धस्तौ हस्तौ प्रणस्व प्रणस्व बहुवे बहुभिर्वसव्यैः बहुभिरिति बहुभिः प्रसव्यैरा आप्रयच्छ यच्छ दक्षिणादा ओत उत सव्यात् सव्यादिति सव्यात् सव्याद, विष्णोर्मकम् कम् वीर्याणि वीर्याणि प्र प्रवोचम् वोचयः यः पार्थिवानि पार्थिवानि विममे इममे रजा वि मम इति वि ममे अजागुंसियः यो अस्कभायद् अस्कभायदुत्तरम् उत्तरगुंसधस्थम् उत्तरमित्युत्तरम् सधस्थम् उत्तर विचक्रमाणः सधस्थमिति सधास्थम् विचक्रमाणस्त्रेधा विचक्रमाण इति विचक्रमाणः त्रेधोरुगायः उरुगायो विष्णोः उरुगाय इत्युरुगायः कृष्णो रराठम् रलाटमसि असि विष्णाः विष्णाः पृष्ठम् पृष्ठमसि असि विष्णाः विष्णाष्णक्त्रे वश्टनार श्त्रे स्थः श्त्रे इति ष्ण्यक्त्रे स्थो विष्णाः विष्णा स्योः स्योरसि असि विष्णाः विष्णार्ध्रुवम् ध्रुवमसि असि वैष्णवम् वैष्णवमसि असि विष्णवे विष्णवे त्वा त्वेति त्वा कृणस्वपाजः पाजः प्रसिधिम् याहि याहि राजा राजेव इवामवान् अमवागुम् इभेन अमवानित्यमावान् इभेनेतीभेन त्रिष्वीमनो अनुप्रसिद्धिम् प्रसितिम् द्रोणानः प्रसिदिमिति प्रासितिम् द्रोणालोऽस्ता अस्तासि असि विध्य विध्य रक्षसः रक्षसस्तपिष्ठैः प्रपिष्ठैरिति रपिष्ठैः तव भ्रमासः आशुया आशुया पतन्ति पतन्त्य नो अनुस्पृश स्पृशधृषता धृषता शोषुचानः शोषुचान जिह्वापतङ्गान् पतङ्गानसन्दितः असन्दितोवि असन्दित इत्यसंवितः विसृज सृजविश्वगविश्वगुल्काः उल्का इत्युल्काः प्रतिस्पशः स्पशो विसृज सृजतोर्णितमः तोर्णितमो भव तोर्णितम इति तोर्णीतमः भव पायोः पायुर्विषः विषो अस्याः अदब्ध इत्यदब्धः यो नः नो दूरे दूरे अघशकुंसः अघशकुंसो यः अघशकुंस इत्यघाशकुंसः योऽ अन्त्यग्नेः अग्ने माकिः माकिस्ते ते व्यथिरा आदधर्षीत् दधर्षीदिति दधर्षीत् उदग्ने अग्ने तिष्ठ प्रत्या आतनुष्व तणस्वनि न्यमित्रान् अमित्रागुम् ओषधात् ओषधात्तिग्महेते तिग्महेत इति तिग्माहेते यो नः नो अरातिम् अरातिगुम् समिधान समिधानचक्रे समिधानेति सम् विधान चक्रे नीचा नीचा तम् तम् धक्षि धक्ष्यतसम् अतसन्न न शुष्कम् ऊर्ध्वो भव प्रति प्रतिविध्या विध्याधि अध्यस्मत् अस्मदाविः आविष्कृणुष्व तृणुष्व दैव्यानि दैव्यान्यग्ने अग्न इत्यग्ने अवस्थिरा स्थिरा तनुहि तनुहि यातुजूना यातुजूनाञ्जामिम् जामिमजामिम् अजामिम् प्र प्रवृणीः वृणीः शत्रून् शत्रोणिति शत्रून् स ते ते जानाति जानाति सुमतिम् सुमतिम् यविष्ठ सुमतिमिति यविष्ठयः ययीवते ईवते ब्रह्मणे ब्रह्मणे गातुम् गातुमैरत् ऐरदित्यैरत् विश्वाण्यस्मै अस्मै सुदिनानि सुदिनानि सुदिनानीति सोदिनानि प्रायोद्युम्नानि द्युम्नान्यर्यः अर्यो वि विदुरः दुरो अभि अभिद्यौत् द्यौदिति द्यौत् सेत् इदग्ने अग्ने अस्तु अस्तु सुभगः सुभगः सुदानुः सुभग इति सोभगः सुदानुर्यः सुदानुरिति सो दानुः यस्त्वानित्येन यस्त्वा इत्येन हविषा हविषायः उक्थैः उक्तैरित्युक्तैः पिप्रीषति स्वे स्व आयुषि दुरोणे विश्वा दुरोण इति दुहो ओने इदस्मै अस्मै सुदिना सुदिना सा सुदिनेति सु दिनाः अर्चामि ते सुमतिं, सुमतिं सुमतिं मतिं संते, ते सुमतिम् सुमतिम् घोषि सुमतिमिति सुमतिम् घोः शर्वाक्वात्सम् सन्ते ते वाता वाता जरताम् जरतामियम् यङ्गीः गीरितिः स्वश्वास्त्वा स्वश्वा इति सो अश्वाः त्वा सुरथाः सुरथा सुरथा इति सौरथाः मर्जयेमास्मे अस्मे क्षत्राणि अस्मे इत्यस्मे क्षत्राणि धारयेः धारयेरनु अनुद्योन् द्योनितिद्योन् यह त्वा भूर्या आचरेत् चरेदुप उपक्मन् त्वम् दोषावस्तः दोषावस्तर्दीदिवांसन् दोषावस्तरिति दोषावसः वीदिवागुम् समनो अनद्योन् द्योनितिद्योन् क्रीडन्तस्त्वा त्वा सुमनसः सुमनसः स पेम सुमनस इति सो मनसः स्वप्रेमाभि अभिद्युम्ना द्युम्ना स्वश्वः सुहिरण्यः स्वश्व इति सो अश्वः सुहिरण्यो अग्ने सुहिरण्य हिरण्यः अग्न उपयाति उपयाति वसुमता उपयातीत्युपयाति वसुमता रथेन वसुमतेति वसुमता रथेनेति रथेन तस्य त्राता त्राता भवसि तस्य तस्य सखाः यस्ते तवातिथ्यम् आदिथ्यमानुषगमानुषग्जुजोषत् जुजोषदिति जुजोषत् अहोरुजामि रुजामि बन्धुता बन्धुता वचोभिः वचोभिस्तत् वचोभिरिति तन्मा मा पितुः पितुर्गोतमाद् गोतमादनो माद, अन्वियाय यायेति नो अस्य अस्य वचसः वचसश्चिकिद्धि चिकिद्भि होतः कोतर्यविष्ठ यविष्ठसुक्रतो सुक्रथो नमूनाः सुक्रथो इति सुक्रतो नमूना इति नमूनाः अस्वप्नजस्तरणयः अस्वप्नज इत्यस्वप्नाजः तरणयः सुषेवाः सुषेवा अतन्द्रासः सुषेवा इति सुसेवाः अश्रमिष्ठा इत्यश्रमिष्ठाः ते पायवः पायवः सध्रियम् च सध्रियम् चो निषद्य निषद्यग्नेः निषद्येति निसद्य अग्ने तव ये पायवः पायवो मामतेयम् मामतेयम् ते ते अग्नेः अग्ने पश्यन्तो अन्धम् अन्धम् दुरिताद् दुरितादरक्षन् दुरितादिकिलुः इताद् अरक्षन्नित्यरक्षन् रक्षतान् तान् सुकृतः सुकृतो विश्ववेदाः सुकृत इति सुकृतः विश्ववेदा इति विश्ववेदाः दिप्सन्त इति द्विपवः रिपवो हदेभुः देभुरिति देभोः त्वया वयम् वयगुंस धन्यः स धन्यस्तोताः स धन्य इति स धान्यः तव प्रणीति प्रणीति इत्यश्याम प्रणीति प्रणीति अश्याम वाजान् वाजानिति वाजान् वाशगुंसा शगुंसासूदया सत्यताते सत्यतातेऽनुष्ठुया सत्यतात इति सत्या तातेः अनुष्ठया कृणुहि कृणुह्यश्रयाण अश्रयाणेत्यश्रयाण अयाते ते, ते अग्ने अग्ने समिधा समिधा विधेम समिधेति इधा विधेम प्रति प्रति स्तोमम् स्तोमगुम् शस्यमानम् शस्यमानम् गृभाय गृभायेति गृभाय रक्षसः रक्षसः पाहि पाह्यस्मान् अस्मान् अस्मान द्रुहः द्रुहो लिलः लियो मित्रमहः मित्रमहो अवद्यात् मित्रमः इति मित्रामह अवद्यादित्यवद्यात् रक्षोहणम् वाजिनम् रक्षोहणमिति रक्षः हननम् वाजिनमा आजिघर्मि जिघर्मित्रम् मित्रम् प्रतिष्ठम् प्रतिष्ठमुप उपयामि या विशर्म शर्मेति शर्म शिशानो अग्निः अग्निः क्रतुभिः क्रतुभिः समिद्धः क्रतुभि दिवासः स रिषः रिषः पातु पातु ज्योतिषा बृहता बृहता त्यग्निः अग्निराविः आविर्विश्वानि विश्वानि कृणुरे कृणुरे महित्वा महित्वेति महित्वा प्रादेवीः अदेवीर्मायाः मायाः सहते सहते दुरवाः दुरेवाः दुरे शिशीते दुरेव इति दुः एवाः शिशीते शृङ्गे शृङ्गे रक्षसे शृङ्गे इति शृङ्गे रक्षसे विनिक्षे विनीक्ष इति विनिक्षेः उतः स्वानासः स्वानासो दिवि दिविशन्तो तिग्मा रक्षसे तिग्मायुधा इति तिग्मा आयुधाः रक्षसे हन्तवै हन्तवादे चित् चिदस्य अस्य प्ररुजन्ति रुजन्ति भामाः भामान न भरन्ते परन्ते परिबाधः परिबाधो अदेवीः परिबाध इति परिबाधः अदेवीनित्यदेवीः ओ इते प्रथमकाण्डे द्वितीयः प्रश्नः समाप्तः ओ